गणेशपुराणं क्रीडाखण्डम् अध्यायं 147 श्री गजानन सेवेन् उवाच दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणां तासां फलानि चिह्नानि सङ्क्षेपात्तेऽधुना ब्रुवे आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप चिह्नं ब्रवीमि चाद्यायास्तन्मे निगदधशृणु अपैशून्यं दयाक्रोधश्चापलं धृतिरार्जवं तेजोभयहिंसा चक्षमा शौचममानिता इत्यादिचिह्नमाद्याया आसुर्याशृणुसाम्प्रदम् अधिवादोऽभिमानश्च दर्पोज्ञानं सकोपता आसुर्या एवमाद्यानि चिह्नानि प्रकृतेर्नृप निष्ठुरत्वं मदो मोहोऽहङ्कारो गर्व एव द्वेषो हिंसादया क्रोध औद्धत्यं दुर्विनीतदा आभिचारिककर्तृत्वं क्रूरकर्मरधिस्तथा अविश्वाससतां वाक्ये शुचित्वे कर्महीनता निन्दकत्वं च वेदानां भक्तानामसुरद्विषाम् मुनिः श्रोत्रियविप्राणां तथा स्मृतिपुराणयोः पाखण्डवाक्ये विश्वाससंगतिर्मलिनात्मनां सदम्भे कर्मकर्तृत्वं स्पृहा च परवस्तुषु अनेककामनावत्वं सर्वदा नृतभाषणम् परोत कर्षा सहिष्णु परकृत पराहति इद्या बकवश्चान्ये रासा प्रकृतेर्गुण पृथिव्यार्गलोक परीवृत्यवस मद्भक्तिरितालोकारक्षसी प्रकृति तामसीं ये श्रुता राजन्यान्दिते रौरवं ध्रुवम् अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिताः दैवान्निःसृत्य नरकाज्जायन्ते भुवि कुब्जकाः जात्यन्धाः पङ्गवो दीनाहीनजादिषु पुनः पापसमाचारामय्य भक्ताः पतन्ति ते उत्पतन्ति हि मद्भक्ता यां लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मैश्च भूमिप सुलभास्सा स मयि भक्तिः सुदुर्लभा विमूढा मोहजालेन बद्धास्वेन च कर्मणा अहं हर्ता अहं कर्ता अहं भोक्ते दिवादिनः अहमेवेश्वरशास्था अहं वेत्ता अहं सुखी एतादृशी मदिर्नृणामधः पादयती हतान् तस्मादेतत् समुत्सृज्य दैवीं प्रकृतिमाश्रय भक्तिं कुरु मदीयां दृढचेतसा सापि भक्तिस्त्रिधा सात्विकी राजसीतरा यद्देवान् भजते भक्र्या सात्विकी सा माता शुभा राजसी साधुविज्ञेया भक्तिर्जन्ममृदिप्रदा यद्यक्षां चैव रक्षांसि यजन्ते सर्वभावतः वेदनाविहितं क्रूरं साहङ्कारं सदम्भकं भजन्ते वेदभूतादीन् कर्म कुर्वन्ति कामिकं शोषयन्दो निजं देहमन्धस्तं मां तामस्येतादृशी भक्तिर्नृणां निरयप्रदा कामो लोभस्तदाक्रोधो दंभस्तर इमी महाद्वारा वीचीना तस्मास्तु वर्जयत ओं तत्सदिश्रीमद्गणेशीतासूपनिषदगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे उपदेशयोगो नाम दशमोऽध्यायः ॐ